हि धर्मिणमात्मानम् जानन् ज्ञानविदंवरः कुर्याद्यथा त्वया भीष्म कृतम् धर्ममवेक्षत चेत्त्वम् धर्मम् विजानासि यदि प्राज्ञामतिस्तव अन्यकामा हि धर्मज्ञा प्राज्ञमानिना अम्बा भद्रन्ते कथम् सापहृता त्वया ताम् त्वयापि हृताम् भीष्म कन्याम् नैषितवान्यतः भ्राता विचित्रवीर्यस्ते सताम् मार्गमनुष्ठितः दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः तव सज्जनाचरिते पथि को हि भीष्म ब्रह्मचर्यमिदं वृथा यद्धारयसि मोहाद्वा क्लीबत्वात्पा नत्वहं त्वहम् तव धर्मज्ञ पश्याम्युपचयम् क्वचित् न हि ते सेविता वृद्धा य एवम् धर्ममब्रवीः इष्टम् यज्ञाश्च बहुदक्षिणाः सर्वमेतदपत्यस्य कलाम् नार्हन्ति षोडशीम्